हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे सप्तमः सर्गः रावणेन इन्द्रजित पराक्रमम् वर्णयित्वा राक्षसे भवान् रामम् विजेष्यति इति रावणाय विश्वासदापनम् इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलः ऊचू प्राञ्जलय सर्वे रावणम् राक्षसेश्वरम् द्विषत्पक्षम् अभिज्ञाय नीची बाह्यास्वबुद्धय राजन् परिघचक्रुष्टि शूलपट्टि शकुन्दलम् सुमहन्नो बलम् कस्मात् विषादम् भजते भवान् त्वया भोगवतीम् गत्वा निर्जिता पन्नगायुधि कैलासशिखरावासी यक्षेर्बहुभिरावृतः सुमहत् कदनम् कृत्वा वश्यस्ते धनदकुतः स्वमहेश्वर सख्येन लाघमान विभो निर्जित समरे रोषात् लोकपालो महाबलः विनिपात्य च यक्षोघान् विक्षोभ्य विनिगृह्य च त्वया कैलास शिखरात् विमानम् इदमाहृतम् मयेन दानवेन्द्रेण त्वद्भया सख्यमिच्छता दुहिता तव भार्यार्थे दत्ता राक्षस पुङ्गव दानवेन्द्रो महाबाहु वीर्योत्सिक्तो दुरासदः विगृह्य वशमानीतः कुम्भीनस्या सुखावः निर्जितास्ते महाबाहु नागागत्वारसातलम् वासुकी तक्षकशङ्खो जटी च वशमारुता। अक्षया बलवन्तश्च शूरा लब्धवरा पुनः त्वया संवत्सरम् समरे दानवा विभो स्वबलम् समुपाश्रित्य नित्यावशंरिन्दम् माया चाधिगता तत्र बह्वो वै शुराश्च बलवन्तश्च वरुणस्य सुतारणे निर्जितास्ते महाभाग चतुर्विध बलानुगः मृत्युदण्ड महाग्राहं। शाल्मली द्रममण्डितम् कालपाश महावीचिं। यम किं गरपन्नगम् महाज्वरेण दुर्धर्षम् यमलोक महार्णवम् अवगाह्य त्वया यमस्य बलसागरम् जयश्च विफलप्राप्तौ मृत्यु च प्रतिषेधितः सुयुद्धेन च ते सर्वे लोकास्तत्र सुतोषिताः क्षत्रियै बहुभिः वीरैः शक्रतुल्य पराक्रमै आसीद्वसु मति पूर्णा महद्भीव पादपै तेषाम् वीर्य गुणोत्साहे न समो राघवोरणे प्रसह्यते त्वया राजन् कथा समारदुर्जयः तिष्ठवा किम् महाराज श्रमेण तव वानरान् अयम् एको महाबाहु इन्द्रजी क्षपयिष्यति अनेन च महाराजो माहेश्वरम् अनुत्तमम् ृष्ट्वा यज्ञम् वरो लब्धो लोके परम दुर्लभः शक्तितोमरमीनञ्च विनिकीर्णान्तलम् गजकच्छेपसंवादम् अश्वम् अश्वमण्डूकसङ्कुलम् रुद्रादित्य महाग्राहम् मरुद्वसु महोरगम् रथाश्व गजतो पदाति पुलिनमहत् अनेन हि समासाद्य देवानां बलसागरम् गृहीतो दैवतपति लङ्का चापि प्रवेशितः पितामह नियोगा च मुक्तः शम्बरभुत्रः गतस्य विष्टपं सर्वदेव नमस्कृतः तम्बेव त्वं महाराज विसृजेन्द्र जितं सुतम् यावद् वा नरसेनां तां स्वरामां नयति क्षयम् राजन् आपदयुक्तेयम् आगता प्राकृता जनात् हृदि नैव त्वया कार्या संवधिष्यसि राघवम् इत्याशेष मद्रामायणे वाल्मीकियाधिकारे युद्धकाण्डे सप्तमः सर्गः